हरि ओम् श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे चतुस्त्रिंश स्वर्गः सीताया अनुनयेन शर्मया तां प्रति मन्त्री सहित रावणसम्बन्धि निश्चित विचारस्य कथनम् अथ तां सातसन्तापां तेन वाक्येन मोहिताम् सर्माह्लादयामास महीम दग्धा विवाम भस तम सख्या चिकीति सखी वचहे उवाच काले कालज स्मृतपूर्वाभाषिणी वत्सहयम गवाक्यम अशिसे क्षण निवेद्य कुशलम रिछन्नावर्ति नी मे क्रमण निरालम्बे विहायसि समर्थो गतिमन्वेतुम् पवनो गरुडो वा एवं ब्रुवाणां तां सीता सर्मामिदमब्रवीत् मधुरं चक्षणया वाच पूर्वशोकाभिपन्नय समर्था गगनम् गन्तुम् अपि च त्वं रसतलम् अगच्छाद्य कर्तव्यम् कर्तव्यम् ते मदन्तरे मत्प्रियम् व्यतिकर्तव्यम् यदि बुद्धि स्थिर तव ज्ञातुमिच्छामि तम् गत्वा किं करोतीति रावणः स हि माया बलक्रूरो रावणशत्रुरावणः मां मोहयति दुष्टात्मा पीतमात्रैव वारुणी सजापयति माम् नित्यम् भर्षापय सक्रो द्रक्षसी भी सुराक्षति उद्विघ्ना शंकिता चास् न मनो मम तदयाचा उद्विग्न अशोक वनिक यदि नाम कथा तस् निश्चित ये निवेदेथा सर्वं तत् वरोमे स्यादनुग्रहे सत्येवं ब्रवतीं सीतां सर्मा मृदुभाषिणी उवाच वदनम् तस्या स्पृशन्ति बाष्पविक्लवम् एषते यद्यभिप्राय तस्माद् गच्छामि जानकी गृह्य शत्रुभिप्रायम् उपावर्तामि मैथिली एवम् उक्त्वा ततो गत्वा समीपम् तस्य रक्षसः शुश्राव कथितम् तस्य रावणस्य समन्त्रिणः सा चित्वा निश्चयम् तस्य निश्चयज्ञा दुरात्मनः पुनरेव मित्रम् अशोक वनिकाम् शुभाम् सा प्रविष्टा दर्श जनकात्मजम् प्रतीक्षमाणां स्वामेव भष्ट पद्म विव श्रियम् तान्तु सीता पुनः प्राप्ताम् सर्वां प्रियभाषिणीम् परिष्वज्य च सुस्निग्धम् तदोच स्वयमासनम् इहासेन सुखम् सर्वम् आख्याहि मम तत्पतः क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः एवम् उक्ता तु सर्वीतया वेपमानय कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः जनन्या राक्षसेन्द्रो वै सन्मोक्षार्थं बृहद्वच अतिस्निग्धेन वैदेहि मन्त्रिवृद्धे न चोदितः दीयताम् अभिषत्कृत्य मनुजेन्द्राय मैथिली निदर्शनं ते पर्याप्तम् जनस्थाने यदद्भुतं लङ्घनं च समुद्रस्य दर्शनं च हनुमतः वधं च रक्षसां युद्धे कट्कुर्यान् मांसो युधि एवं स मन्त्रिवृद्धै च मात्रा र्थः परो यथा नो सत्यम्बतो मोक्तुम् युद्धे त्वाम् इति मैथिली सामात्यस्य निश्चयो ह्ये च वर्तते तदे च सुस्थिरा बुद्धिः मृत्यु लोभादुपस्थिता भयान्न शक्तः त्वाम् मोक्तुम् अनिरस्तयोगे राजुतानाम् च सर्वेषाम् आत्मन च वधेन हि नियत्य रावणम् सङ्ख्ये सर्वथा निशितैशरे शतिराम त्वाम् अयोध्याम् अशिते क्षणे एतस्मिन्नन्तरे शब्दो भैरि शङ्ख समाकुलः कृतो वै सर्वसैन्यानां कम्पयन् धरणीतलम् कृत्वा सूतं वा नरसैन्यनादम् लङ्कागता राक्षराजभृत्याय अतो च सो दैन्यपरीतचेताय श्रेयो न पश्यन्ति नृपस्य दोषात् इत्याख्ये श्रीमद् रामणे वाल्मीकि अधिकारी युद्धकाण्डे चतुस्त्रीञ्च सर्गहे श्रीसीतारामचन्द्रार्पणमस्तु